एवं रूपेति सा शक्या न निर्देष्टुं न राधिपा क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वा पुस्तथा चापि भारता न च रूपं मया कदाचन सुसुखा सा सदा राजन्न शीता घर्मदा नक्षुत्पिपासेन ग्लानिं प्राप्यतां प्राप्नुवन्त्युता नानारूपैरिव कृता मणिभिः साक्षरा दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभैः अतिचन्द्रं च सूर्यं च शिखिनं च स्वयं प्रभा दीप्यते नाकपृष्ठस्था भर्त्सयन्तीव भास्करम् तस्यां सभगवानास्ते भगवानास्ते स्वयमेकोनिशम् राजन् सर्वलोकपितामहः उपतिष्ठन्ति चाप्येनम् प्रजानां पतयः प्रभुम् दक्षप्रचेताः पुलहो मरीचिः कश्यपः प्रभुः भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाङ्गिराः पुलस्त्यश्च क्रतुश्चैव प्रह्ला्रादः कर्दमस्तथा अथर्वाङ्गिरसश्चैव बालखिल्यामरीचिपाः विद्याश्च वायुस्तेजोजलम् मही शब्दस्पर्शौ तथा रूपं रसो गन्धश्च भारत प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः